एकाधिकशततमोऽध्यायः वैशम्पाय न उवाच चेदिराजसुताम् ज्ञात्वा दाशराजेन वर्धिताम् विवाहम् कारयामास शास्त्रदृष्टेन कर्मण ततो विवाहे निर्वृत्ते सराजा राजा शान्तनुर्नृपः ताम् कन्याम् रूप सम्पन्नाम् स्वगृहे सन्यवेशयत् ततः शान्तनवोधीमान् वीरश्चित्राङ्गदो नाम वीर्यवान् पुरुषेश्वरः अथापरम् महेश्वासम् सत्यवत्याम् सुतम् प्रभुः विचित्रवीर्यम् राजानम् जनयामासीर्यवान् अप्राप्तवति तस्मिन्स्तु यौवनम् पुरुषर्षभे स राजा शान्तनुर्धीमान् कालधर्ममुपेयिवान् स्थापयामास वैराज्ये सत्यवत्यामते स्थितः स तु चित्राङ्गदः शौर्यात् सर्वान् कं क्षिपन्तम् सुरांश्चैव मनुष्या न सुरांस्तथा गन्धर्वराजो सदा गन्धर्व उवाच वै सदृशनामासि युद्धम् देहि नृपात्मज नाम यदि युद्धम् न दास्यसि युद्धमिच्छामि त्वत्सकाशात्तु नामतः आगतोऽस्मि मृधा भाष्यो न यथा तेनास्य सुमहत्युद्धम् तयोर्बलवतोस्तत्र गन्धर्व कुरु मुख्ययोः यास्तीरे सरस्वत्याः समास्तित्रो भवदृणः तस्मिन् विमर्ते तुले शस्त्रवर्षसमाकुले मायादिकोऽवधीत्वम् गन्धर्वः सहत्वा पुनरश्रेष्ठम् चित्राङ्गदमरिन्दमम् अन्ताय कृत्वा गन्धर्वो दिवमाचक्रमे तस्मिन् पुरुषशार्तूले निहते भूरितेजसि भीष्मशान्तनवो राजा प्रेतकार्याण्यकार यत् क्रुराज्ये महाबाहुरभ्यञ्चदनन्तरम् विचित्रवीर्यः सतदा भीष्मस्य वचने स्थितः अन्वशासन्महाराज पितृपैतामहम् पदम् सधर्मशास्त्रकुशलम् भीष्मम् शान्तनवम् रूपः पूजयामा स सचैनं स प्रत्यपालयत् इति श्रीमहाभारते आदिपर्वणि सम्भवपर्वणि चित्राङ्गदोपाख्याने एकाधिकशततमोऽध्यायः